मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फिफ्टीन् वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनम् श्रीगणेशाय नमः दशरथ उवाच अधुना शुक्लगायास्तु वैशाखे चरितं वद चतुर्थ्या शुभदम् पूर्णं न तृप्यामि कथामृदाद वसिष्ठ उवाच गुर्जरे सर्वशोभाढ्यं नगरं भद्रकम्परं तत्र राज्यं चकारैव राजा ब्रह्मप्रियो महान् सर्वशास्त्रार्थसम्पन्नो यज्ज्वा दानप्रियः सदा देवद्विजातिथिप्रेप्सु शस्त्रास्त्रे पारगो भवत सर्वान् राज्ञो वशे कृत्वा पृथिवीमण्डलाधिपः बभूव बलसम्पन्नः सर्वमान्यो तस्य पत्नी मृता रजोदर्शनमात्रतः द्वितीया च कृता पत्नी समशीला नृपेणः सापि तद्वन्मृता राजन्येवं पञ्चमृतास्ततः पत्न्यो भवन् सुदुःखार्थो राजा ब्रह्मप्रियो भवत राज्यं निक्षिप्य राजर्षिप्रधानेषु ययौवनं स्वगुरुं स्वेदकेतुं सप्रणम्य पुरतः स्थितः स्वेदकेदुःस्वशिष्यं तमसानादिशुमानदं मानदं संस्थाप्य कुशलत्वेन मानयामासहर्षिदः भोजयित्वा स राजानं महत्पप्रत्यकारणम् किमर्थं राजशार्दूल कृतमागमनं त्वया वद तत्कारणं मुख्यं तत्करिष्येऽहमादराद ममाश्रमे त्वमेकाकी राज्यं त्यक्त्वा समागतः एवं पृष्ठः स राजर्षिस्थम् प्रणम्य कृताञ्जलिः जगाद सर्वं पत्नी नाशात्मकं स्वयं तच्छ्रुत्वा गाणपत्यश्चेदकेदुर्महातपाः ध्यानेनालोक्य तं भूपं जगादक्रोधसंयुधः स्वेदकेदुरुवाच नृपाधमहापापिन् शृणु मे वचनं हिदम् व्रतं मुख्यं चतुर्भ्यास्ते राज्ये नष्टं विशेषतः चतुर्थीव्रतहीनस्य कर्म सर्वम् सुनिष्फलम् नारकीज भवत्यन्ते स नरो नात्रसंशयः चतुर्भिपुरुषार्थैस्त्वं वर्जितो वर्जिदो नृप चदु पदार्थ चदुर्थी चतुपदार्थदाधृत्वा चतुर्थी कथिताबुधैः श्वेतकेतुवच श्रुत्वा कोपयुक्तं महीपतिः प्रणम्य तमुवाचाथ लज्जिधेदसंयुतः ब्रह्मप्रिय उवाच अज्ञानेन कृतं विप्र सर्वदस्य व्रतस्य यद् अनाचरणकं तेन क्षमस्व करुणानिधे वद मां कीदृशं स्वामिन् व्रतं सर्वार्थदं परं पूजनं कस्य वा कार्यं विधियुक्तं च तत्र वै एवं पृष्ठो महातेजाश्वेत केदुस्तमब्रवीद माहात्म्यं व्रतमुख्यस्य श्रुत्वा सोऽपि तमब्रवीद ब्रह्मप्रिय उवाच कीदृशोऽयं गणाधीशो व्रतं यस्य महाद्भुदं स्वरूपं वदमेतस्य भजिष्यामि तमादराद श्वेतकेतुरुवाच शृणुराजन्पुरावृत्तं कथयामि समासदः मदीयं चेष्टिदं तेन गणेशं ज्ञास्यसे परम् अहम्पुरातपोनिष्ठो बभूवादितरां नृप उद्दालकं प्रणम्यैव पिदरं साधनेरदः तदोदितपसायुक्तम् दृष्ट्वा मां जनको वचः जगादस्नेहसंयुक्तशान्तिदा महायशाः उद्दालक उवाच पुत्रशान्त्यर्थमेव त्वं तपस्त्यक्त्वा महामते कुरु श्रमं विशेषेण ब्रह्माहमिधि धारयन् कुदा आयादो कुत्र गच्छसि मां वद चित्ते चिन्तामणिं ताद पश्य पश्य विशेषतः पितुर्वचनमाकर्ण्यतमहं पुनरब्रवं वद तादस्वपुत्राय ज्ञानं शान्तिप्रदं महद चित्तं च कीदृशं तात तत्र चिन्तामणिः कथं सोऽपि तिष्ठति विप्रेष कथं ज्ञेयो महात्मभिः वसिष्ठ उवाच एवं पृष्ठो महायोगी तमारुणिरुवाचः हर्षेण महदायुक्तो गाणपत्यस्वभाववान् उद्दालक उवाच शृणुपुत्रमहाभागयोगशान्तिप्रदायकं येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि चित्तं पञ्चविधं प्रोक्तम् क्षिप्तं मूढं महामदे विक्षिप्तं च तद्धैकाग्रं निरोधं भूमिसंज्ञं तत्र प्रकाश्यकर्ता सौ हृदि चिन्तामणिस्थितः साक्षाद्योगेन योगज्ञैर्लभ्यते भूमिनाशनाद चित्तरूपा स्वयं बुद्धिश्चित्तभ्रान्तिकरी मदा सिद्धिर्माये गणेशस्य माया उच्यते अदो गणेशमन्त्रेण गणेशं भजपुत्रका तेनत्वं त्वं ब्रह्मभूतत्वं शान्ध्या योगेन यास्यसि यत्युक्त्वा गणराजस्य ददौ मन्त्रं तथा रुणिः एकाक्षरं स्वपुत्राय नृपध्यानादिसंयुतं तेनाहं साधयामि गणेशं सर्वसिद्धितं क्रमेण शान्तिमापन्नो योगि वन्द्यो भवं अतस्त्वमपि राजेन्द्र तेनेह परलोकस्थ सुखं प्राप्स्यसि शाश्वतम् ब्रह्मणि ब्रह्मभूतस्त्वम् भविष्यसि न संशयः यवमुक्त्वा सद्वात्रिंशदक्षरस्थम् ददौ मनुम् विधियुक्तमनुं राजा गृह्यस्वगृहमाययो श्वेदकेतुम् प्रणम्यैव हर्षयुक्तेन चेतसा तत्रादौ शुक्लपक्षस्था वैशाखी च चा समागता चतुर्थीताम् चकारासौ नागरैर्हर्षसंयुतः तेन सर्वत्र कोषश्च व्रतस्य प्रकृतो महान् शौक्लं कार्ष्णं व्रतं चकृ भूमिसंस्था राजा स्वस्त्रीसमायुक्तो भजत्तं गणनायकं पुत्रं राज्ये समास्थाप्य निवृत्या संयुदो भवद मन्त्रं जजापविघ्नेशं ध्यात्वा पूजापरायणः व्रत युक्तस्तथाम् ते स ब्रह्मभूतो बभूवः ब्रह्मप्रियेदि नामा भूत् तदेवं स्वभावदः तस्य राज्ये जनाः सर्वे व्रतपुण्येन भूमिपक्रमेण ब्रह्मभूतास्ते भवन् स्वानन्दके पुरे उद्दालकस्वेदकेदू गाणपत्यः स्वभावतः अवधूदौ दु विख्यातौ बभूवादे महाप्रभो श्वेद केदुद्विजेनापि मर्यादाप्रकृता बलाद सर्वेभ्यः सुखदात्यन्तं तां शृणुष्व विशेषदः कदाचिदारुणिस्तत्र सस्त्रीकस्वश्रमे स्थितः जगादस्त्रियमेवंस आरुणे कामविह्वलः मैथुनाय समागच्छ मया सह सुरूपिणि तच्छ्रुत्वाश्वेदके माक्रोधं कुरुपुत्रत्वमवृतास्तु स्त्रियो मदाः तच्छ्रुत्वापितरं प्राक् श्वेदघेदू रुषायुधः एवं चेत्पदिमेकं वृणोति सा कामिनी कथम् अधो वैवेध स स्वामिन्नकृतं कर्म शाश्वतम् असमञ्जसकं मर्यादां कारयाम्यहम् अद्य प्रभृतिरागेण स्पृशद्यश्च परस्त्रियं स्त्रीहत्यां लभतां तत्र पुरुषः सनसंशयः अथवा पुरुषं कञ्चित् पतिं त्यक्वा च कामिनीं गच्छेन्मैथुनभावार्थं पदिहत्यां तु सालभेद यद्यसं गणराजस्य भक्तश्चेद्विघ्ननायक तदा मे वचनं सत्यं भवेत्तत्ते नमो नमः तदाधिसंवृदा स्त्री सा सेवते भावदः पदिं विनायकप्रसादेन तेनेयं स्थापिता भवद प्रसङ्गात्ते मया ख्यातमुद्दालकविचेष्टितं माहात्म्यमन्यदधुना चतुर्थी महाराष्ट्रे द्विजः कश्चित् परस्त्रीलम्पडो भवद तदर्थं तेन मद्यस्य कृतं पानं विशेषतः चौर्येण धनमादाय हिंसा कर्म हिंसाकर्मपरायणः नानापापरदो भूत्वा परस्त्रियमसेवद जगामशूद्रगेहे स एकदा कामविह्वलः धनं गृहीत्वा स्वं लब्धं धनं दत्वा ररामः एवं किञ्चिद्गदे काले शूद्रस्वगृहमागतः तेन शस्त्राभिखातेन हदभूत्सद्विजाधमः तस्मिन् दिने समायादा चतुर्थी दैवयो गतः तत्र शस्त्राभिघातस्य पीडया संयुदोऽभवद अनादिभिर्विहीनश्च पञ्चम्यां स ममारः ततस्वानन्दके लोके जगाम वैशाखशुक्लपक्षस्य चतुर्थीव्रतयो गदः ब्रह्मभूतः स वैजातो महापापपरायणः अज्ञानव्रतजेनैव पुण्येन सौ द्विजाधमः ब्रह्मभूतश्च सञ्जातो ज्ञानिनां तत्र का कथा नानाजनाव्रतं कृत्वा ज्ञानतो ज्ञानतो नृप बभूवुर्ब्रह्मभूताश्च मया वक्तुं न यदद्वैशाखशुक्लायाश्चतुर्थ्याशृुयात्तु यः माहात्म्यं प्रपठे त्वापि सलभे दीप्सितं फलम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वैशाखशुक्लचतुर्थी माहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ओम्